मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं तर्टीन् नवग्रहरथादिवर्णनं श्रीगणेशाय नमः मुद्गल उवाच रवेकलांशसम्भूता द्वादशान्ये च भानवः द्वादशस्वेव मासेषु ते तपन्ति रथस्थिताः शरथोधिष्ठितो देवैरादित्याैर्मुनिभिस्तथा गन्धर्वैरप्सरोभिश्च ग्रामणि सर्पराक्षसैः धादार्यमाधमित्रश्च वरुणशक्रसंज्ञवस्वानधपूषा च पर्जन्यश्चांशुरेव च भगस्त्वष्टाधविष्णुश्च द्वादशैदे च भानवः तपन्ति रथसंस्था वै वसन्तादिक्रमेण च पुलस्त्यपुलहो धात्रिर्वसिष्ठश्चाङ्गिरा भृगुः भरद्वाजो गौतमश्च कश्यपक्रतुरेव च जमदग्निकौशिकोधमुनयो ब्रह्मवादिनः स्तुवन्दिपुरदो देवं छन्दोभिर्विविधैस्तथा रथकृच्च रथौ जा वै रथचित्रस्वबाहुकः रथस् स्ेनोध वरुणः सुषेणः सेनजित्तथा तार्श्यश्चादिष्टनेमिर्वै रथजित्सत्यजित्तथा ग्रामण्यो देवदेवस्य कुर्वदे भीषु सङ्ग्रहम् अधहेति प्रहेतिश्च पौरुषे यो वधस्तथा सर्पो व्याक्रस्तधा व्याधो वादो विद्युद्दिवाकरः ब्रह्मोपेतश्च भो दक्ष यज्ञोपेतस्तथा परः राक्षसप्रवरा एते प्रयान्ति पुरधक्रमाद वासुखि कङ्गनीरश्च तक्षको नागमुख्यकः येनापत्रशङ्खपालस्तधैरावदसंनिधः धनञ्जयो महापद्मस्तथा कर्कोडगोपरः कम्बलाश्वतरौ चैव वहन्त्येदे प्रभाकरम् नागाद्वादशमास्येषु प्रजाधीश यथा क्रमं तुम्बुरुर्नरदोहः हु हूर्विश्वा वसुस्तथा उग्रसेनो वसुरुचिरवीव सुरधापरः चित्रसेनस्तधोर्नायोर्धृतराष्ट्रः प्रजापदे सूर्यवर्चा द्वादशैदे गन्धर्वा गायनाः पुरः घनस्तनी च रम्भा तधान्या पुञ्जिकस्थली मेनका सहजन्या च चा प्रम्लो चाधप्रजापदे कृताची च चा विश्वाची चोर्वशी परा अन्या च पूर्वचित्तेर्या भास्करं च तिलोत्तमां ताण्डवैस्तोषयन्त्येनं वसन्दादिषु वैक्रमाद एवं देवा वसन्ध्यर्के द्वौ द्वौ मासौ क्रमेण तु शूर्यमाप्याययन्त्येदे तेजसा तेजसां ग्रथितैश्ववचोऽभिस्तं स्तुवन्दिमुनयो रविं गन्धर्वाप्सरसश्चैनं ज्ञेयैर्नृत्यैरुपासते ब्राह्मणिर्ह्यक्षभूतानि कुर्व देभिषु सङ्ग्रहं सर्पा वहन्ति देवेशं यादुधानाः प्रयान्दितम् लकिल्या नयन्त्यस्तं परिवार्योदयाद्रविं ये ते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च भूतानामशुभं कर्म व्यपोहन्त्यनुकीर्तिताः एते सहैव सूर्येण भ्रमन्ति दिवि सर्वदा विमानेधिष्ठिता नित्यम् कामगे वादरं हसि वर्षन्तश्च तपन्तश्च ह्लादयन्तः सदा प्रजाः गोपायन्ती कभुदानि सर्वाण्ये युगक्षये ये तेषां रूपमास्ताय सूर्यस्तपदि नित्यशः अहोरात्रव्यवस् स्थानां कारणं स प्रजापतिः पितृदेवमनुष्यादिनित्यमाप्यायये द्रविः एवमेष गणेशां सो देवदेवो दिवाकरः करोति नियदं कालं कालात्मा भगवान् स्वयम् अन्ये चाष्टग्रहाः प्रोक्ता ध्रुवे बद्धा भ्रमन्ति ते दिवाकरकरैपुष्टा तं रविं वादरश्मिभिः चक्रसोमस्य कुन्दाभास्तस्य वाजिनः वामदक्षिणदो युक्ता दशते वैक्षपाकराः वीद्याश्रयेण नक्षत्रं चरत्येवरविर्यथा ह्रासवृद्धिसमयुक्तो ध्रुवा धारेण सर्वदा स सोमः शुक्लपक्षे दुभास्करे परतस्थिते आपूर्यते कलामात्रः सततं वर्धते ततः कृष्णे पीदं सुरैः सोममाप्याययति नित्यदा एकेन रश्मिना दक्ष शुश्रुम् नाख्येन भास्करः एवं सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः दृश्यते पौर्णमासीस्था सम्पूर्णा दिवसहिक्रमाद सम्पूर्णमर्धमासेन तं सोममृतात्मकं पिबन्ति देवदा सर्वाक्रमेणामृतभोजिनः तद पञ्चदशे भागे किञ्चिच्चे शे कलात्मके पितरश्च पराह्नेदं जघन्यं पर्युपासते पिबन्दिलवं कालं शिष्टा तस्य कला तु या स्वधा मृदमयी पुण्या सा चन्द्रस्या मृदात्मिका निःसृतं तदमायां तु गभस्तिभ्यस्वधा मृदम् मासतृप्तिकरं तेषां पितरः सन्धिनिर्वृताः न सोमस्य विनाशस्यात्सुधा देवस्य पानदः एवं सूर्यनिमित्तोऽस्य क्षयो वृद्धिश्च सर्वदा स्यन्दनस्थैः समायुक्तस्तेनासौ यादि सर्वतः भार्गवस्य तथाष्टाश्वस्यन्दनो हेमनिर्मितः अष्टाभिरपि मेषैश्च रथो भौमस्य शोभनः बृहस्पतेश्च रक्ताश्वैरष्टभिर्हेमनिर्मितः रथोष्टनीलगृध्रैश्च मन्दस्यायसनिर्मितः सर्भाहो कृष्णसिंहाैश्च युक्तकेधोकपोतकैः एते नवग्रहाणां वै समाख्यादा महारथाः सर्वे ध्रुवे समाबद्धा वादरश्मिभिरादराद ग्रहर्षताराधिष्ण्यानि ध्रुवे बद्धानि सर्वदा भ्रमदिभ्रामयत्येदान् सर्वासानिलरश्मिभिः अधो ध्रुवाधारमिदं ज्योतिश्चक्रं प्रजापदे ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एक रधादि नवग्रहरथादिवर्णनं नाम त्रयो दशोऽध्यायः ओम्